अथ चतुर्थोऽध्यायः ओ जनकोह वैदेह आसार्चक्रेतः याज्ञवल्क्य आवं राजतोवाच याज्ञवल्क्य किमध्यमचारी पशूनिच्छन्नन्वन्ता मृत्युभयमेव सम्राणिवाच यत् कश्चिब्रवीत तशण्वा मे तब्रवीन्मे जिशीर्वाग्वै ब्रमेति यथातृमा पितृमाचार्यवाया तथा तछलीरब्रवीद्वाग्वी ब्रमे त्यवर दो यब्रवीतनमतिष्ठा मे ब्रवीदि सम्राणिश्रूहियाग्ञवल्यगे पात नाश प्रतिष्ठा प्रज्ञेन दुपात का प्रज्ञायाग्ञवल्यगे सम्राणिवाच वाचा, वाचा, वाचा वै सम्राट बंधु प्रज्ञा दर्ेदो यजुर्वेद साम वेदों पुराण विद्या उपनिषदश्लोकास्सूत्राण्यनं व्याख्यानानि व्याख्यानानिष्टव्ये हुतमाशितं पायितमयं च लोकः परश्च देवो भूत्वा देवालप्येति य एवं विद्वाने तदुपास्ते हस्त्ययुषभग्ने सहस्रं ददामीति होवाच जनको वैदेहसहोवाच याज्ञवल्गः पिता मे मन्यतमाननुशिष्यहरेतेति यले वदे कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्न उदङ्कशौल्बाय नः प्राणो वै ब्रह्मेति यथा मातृमान् मित्रमाणाचार्यवान् ब्रूयात्तथा तच्छौल्बायनोऽब्रवीत् प्राणो वै ब्रह्मेत्यप्राणतो हि किज्ञस्यादित्यब्रवीत् उदे तस्यायतनं प्रतिष्ठान्न मे ैरित्येकवाद्वा एतत् सम्राटिति स वै न ब्रूहि याज्ञवल्क्यप्राण एवायतनमाकाशः प्रतिष्ठा प्रियमित्येन दुपासीदका प्रियतायाज्ञवल्क्यप्राण एव सम्राडिति होवाच प्राणस्य हो वै सम्रा शङ्कं भवति यान्ति शमेति प्राणस्यैव सम्राट् कामाय प्राणो वै सम्राट् परमं ब्रह्मणेन प्राणो जहाति सर्वान्यं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वाने तदुपास्ते हस्तिषभग्ये सहस्रं ददामीति होवाच जनको वै देहस्सहोवाच या ल्प्यः पिता मे मन्यतनाननुशिष्य हरेति यदेवते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे बर्कुर्वार्ष्णश्चक्षुर्वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान् ब्रूयात्तथा दद्वार्ष्णोऽब्रवीत् चक्षुर्वै ब्रह्मेत्यपश्यतो हि दिव्यस्यादित्यब्रवीत् स्यायतनं प्रतिष्ठानमेऽब्रवीदित्येकपा गायेतत् सम्राळ् इति स वै न ब्रूहि याज्ञवल्क्यचक्षुरे वायतनमाकाशः प्रतिष्ठा सत्यमित्येन दृपासीतका सत्यता याज्ञवल्क्यचक्षुरेव चक्षुषा वै सम्राट् पश्यन्तमाहुरद्राक्षीरिति स तत्सत्यं भवति चक्षुर्वै सम्राट् परमं ब्रह्मणैनं चक्षुर्जहाति सर्वान्येन भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वाने तदुपास्ते हस्त्यषभर्गे सहस्रं ददामीति होवाच जनको वै देहस्सहोवाच याज्ञवल्ल्यः पिता मे मन्यतनाननशिष्यहरे teeti यदे कश्चिदब्रवीत् तच्छृणवामेत्यब्रवी न्नमे ब्रवीदित्येकपाद्वा एतत्सम्रा इति स वैणो ब्रूहि याज्ञवल्क्य श्रोत्रणेवायतनमाकाशः प्रतिष्ठानन्त इत्येनुपासेतकानन्ततायाज्ञवल्क्यदिश एव सम्राडिति होवाच तस्माद्वै सम्राण्यपि यां काञ्च दिशङ्गच्छति नैवास्यान्तङ्गच्छत्य जलन्ता हि दिशो दिशो वै सम्राट् श्रोत्रज्ञश्रोत्रं वै सम्राट् परमं ब्रह्मणैनज्ञश्रोत्रं जहाति सर्वान्यं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति एवं विद्वाने तदुपास्ते हस्तिजहसं ददामीति होवाच जनक वै देहस्सहोवाच ग्नवल्गः पिता मे मन्यतनाननशिष्य हरेतेति य रचिदब्रवी तमेब्रवीन्मे सत्यमो जाबा मनोवै ब्रमेति यथातृमाचार्यवान्थाजाब्रवीन्मनोव ब्रमेमसोदिब्रवीद मे ब्रवीदी एतत्सम्राति स वैनां ब्रूहि याज्ञवल्जमन एव यदनमाकाशप्रतिष्ठानन्द इत्येनपासेतकानन्दतायाज्ञवल् च मन होवाच मनसा वै सम्राट् जायते स आनन्दमद वै सम्राट् नैनं मनोजहादिसर्वाण्येणं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति एवं विद्वाने तदुपास्ते हस्तिषभ्यसहस्रं ददामी देहोवाच जनको वैदेहस्सहोवाच याज्ञवल्ल्यः पितामे मन्यत नाननशिष्यहरे तेति येवते कश्चिद्रवीत तृणवाब्रवीन्मे विद्ध साकल्य हृदय वै ब्रेति मात्रचार्यन्ब्रूया तथा तकल्य ब्रवीदृद ब्रमेतृदिब्रवीद प्रतिष्ठा मे ब्रवीद एतत्सम्राट् इति स वैना ब्रूहि याज्ञवल्क्यहृदयमेवायतनमाकाशः प्रतिष्ठा स्थितिरित्येन दृपासीतकास्थिदतायाज्ञवल्क्यहृदयमेव सम्राट् इति होवाचहृदयं सर्वेषां भूतानामायतनज्ञहृदयं वै सर्वेषां भूतानां ष्ठा हृदये एव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति हृदयं वै सम्राट् परमं ब्रह्मनैरहृदयं जहाति सर्वाण्येण भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति एवं विद्वाने तदुपास्ते हस्तिषभग्रे सहस्रं ददामीति होवाच जनको वै सहो वाचयाज्ञवल्ल्यः पिता मे मन्यत नाननुशिष्य हरेतेति जनकोह वै देहूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्यानुमाशाधीति सहो वाच यथा वै सम्भ्राण्महान्तमध्वानमेष्यन् रथं वा नावं वा समाददीतैव मे वैताभिरुपनिषद्भिः समाहितात्मास्येवं वृन्दारय आढ्यः सन्नचितवेदवुक्तोप षत्करितोऽपि मुच्यमानत्व गमिष्यसीति नाहम् तद्भगवन् वेद यत्र गमिष्यामीत्यथ वैतेऽहम् तद्भक्ष्यामि यत्र गमिष्यसीति ब्रवीतु भगवानिति इन्धो ह वै नामैषयोयं दक्षिणे शङ्कुरुषस्तं वा इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः अथैतद्वामे क्षणि पुरुषरूपमेषास्य पत्नी विराट्टयोरेष सज्ञस्तावो य एषोन्दर्हृदय आकाशोऽथैनयोरे तदन्नै ज ेषान्तर्हृदये लोहितपिण्डोथैनयोरे तत्रावरणै यदेतदन्तर्हृदये जालकमिवाथैनयोरेषा श्रुतिः सञ्चरणीयैषा हृदया लोर्ध्वारति यथा केशसहस्रधा भिन्न एवमस्यैताहिता नामनान्तरहृदये प्रतिष्ठिता भवन्त्येताभिर्वा एतदा श्रवति तस्मादेशप्रविक्ताहारतर इवैव भवत्यस्माच्छारीरादात्मनः तस्य प्राचीदिक्प्राञ्चः प्राणा दक्षिणादिक्दक्षिणे प्राणाः प्रतीचीदिक्प्रत्यञ्च प्राणा उदीचीरिगुदञ्चः प्राणा उद्ध्वादिगोध्वा प्राणा अवाचीदिगवाञ्चः दि प्राणा सर्वादिशः शीर्यते सङ्गो न हि यथते न वैजनकप्राप्तो वै जनकप्राप्तोऽसीतिहोवाच याज्ञवल्क्यः स होवाचजनको वै देहोऽभयं वेदयसे नमस्तेऽस्ति मेऽपि देहा अयमहमस्मि जनकगृहवैलेहैयाज्ञवल्क्यो जगामसमेने न वदिश्येत्यथः यज्जनकश्च वैलेहयाज्ञवल्क्यस्थाग्निहोत्रे समुदादे तस्मै हयाज्ञवल्ल्यो वरं ददौ सहकामप्रश्नमे भवौले तगेहास्मै ददौ तगेहसम्राणे वपूर्वः पप्रच्छ याज्ञवल्क्य किम् ज्योतिरयम् पुरुष इत्यादित्यज्योतिः सम्राटिति होवाचादित्येनैवायम् ज्योतिषास्ते पल्यते कर्म कुरुतेऽपि विपल्यते इत्येवमेवैतद्याज्ञवल्क्या अस्तमित आदित्येयाज्ञवल्क्यकिञ्ज्योतिरेवायम् पुरुष इति चन्द्रमायैवेवास्य ज्योतिर्भवतीति चन्द्रमसैवायञ्ज्योतिषास्ते पल्ययते कर्म कुरुते विफल्येतीत्येवमेवैतद्याज्ञवल्क्या अस्तमितः आदित्येयाज्ञवल्क्यचं रमस्यस्तमिते किं ज्योतिरेवायम् पुरुष इत्यग्नि देवास्य ज्योतिर्भवतीत्यग्नि नैवायञ्ज्योतिषास्ते पल्ययते कर्म कुरु ते विपल्येतीत्येवमेवैतद्याज्ञवल्क्या अस्तमित आदित्येयाज्ञवल्ल्यचन्द्रमस्यस्तमिते शान्तेज्ञा किं ज्योतिरेवायं पुरुष इति वागेवास्य ज्योतिर्भवतीति वा चैवायञ्ज्योतिषास्ते पल्ययते कर्म कुरुतेऽपि पल्येति तस्माद् वै सम्राडपि यत्र स्वक्वाणिर्नविनिर्ज्ञायते च यत्र वागच्छरत्युपैव इत्येवमेवै तद्याज्ञवल्क्या अस्तमित आदित्ये याज्ञवल्क्यचन्द्रमस्यस्तमिते शान्तेऽनौ शान्तायाम् वाचि किम् ज्योतिरेवायम् पुरुष इत्यात्मैवास्य ज्योतिर्भवतीत्यात्मनैवायञ्ज्योतिषास्ते पल्ययते कर्म कुरु दीति दी। कथमात्मेऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः ससमानः संलभो लोकामनसञ्चरति ध्यायति वलेलायतीव सहिः स्वप्नो भोक्ते मल्लोकमति क्रामति मृत्योरूपाणि स वा अयं पुरुषो जायमानः शरीरमभि सम्पद्यमानः पामभिः सज्ञे सृज्यते समुत्क्रामन् म्रियमाणः पामनो स्य वा एतस्य पुरुषस्यन्ते एव स्थाने भवत इदं च परलोकस्थानञ्च सन्ध्यं तस्मिन् स्थाने तिष्ठन्नेते उभे स्थाने पश्यति इदं च यथा क्रमयं परलोकस्थाने भवति दमाक्रममाक्रम्यो भयान् पात्मनः व्यश्च पश्यति स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयम् विहत्य स्वयम् निर्माय स्वेन भासा स्वेन ज्योतिषात् प्रस्वपित्यत्रायम् पुरुषस्वयम् ज्योतिर्भवति न तत्र रथानरथयोगानपन्थान भवन्त्यथ रथान् रथयोगान् रथ सृजतेन तत्रानन्द न्दा मुदः प्रमुदो भवन्त्यथानन्दान् मुदः प्रमुदः सृजतेन तत्र वेशान्ताः पुष्करिण्यः वे पुष्करिणी स्रवन्ती सृजते स तदेते श्लोका भवन्ति स्वप्नेन शालिकमभिप्रहत्या सुप्तः शुक्रमादा पुनरैतिन ग्रेरन्मयुरश एकहग्स प्राणेन रक्षकुलायलायादमृत स ईयते मृत यम ग्रेरण पुषे एकह संद वचमीयमानी दे बुते बहूनी वह उते वशीभिः सह मोदमानो जक्षदुते वापि भयानि पश्यन् आराममस्य पश्यन्ति न तम् पश्यति कश्चनेति तम् मायतम् दुर्भिषज्जगृहास्मै भवति यमेश न प्रतिपद्यते सो खल्वाहुज्जागरितदेश एवाशेष इति यानिह्येव जाग्रत्पश्यति तानि सुप्त इत्यत्रायम् पुरुषः स्वयञ्ज्योतिर्भवति सोऽहम् भगवते सह सन्ददाम् यत ऊर्ध्वम् स वा एष एतस्मिन् सम्प्रसादे नत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवतिः स्वप्नायैव स यत्तत्र किञ्चित् पश्यत्यनन्वागतस्तेन भवत्यसङ्गोह्ययं पुरुष भगवते सहस्रं ददां यतबोर्ध्वं विमोक्षाय दिवब्धो हितिः स बाल्ये शरे तस्मिन् स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवदि बुद्धान्तायैव स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गोह्ययं भगवते सहस्रं ददां यदोर्ध्वं विमोक्षायै स वा एष एतस्मिन्बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यम् पुनः प्रतिन्यायम् प्रतियोऽन्या द्रपतिः द्यथा महामस्य उभे कोले सञ्चरति पूर्वम् चापरम् चैव मेवायम् पुरुष एताबुभावम् तावन, तावन। सञ्चरति स्वप्नान्तम् च बुद्ध्यान्तम् तद्यथास्मिन्नाकाशे श्यो वा सुपर्णो वा विपरिपत्य श्रान्तः सग्हत्यपक्षौ सल्लयायैव्रियत एवमेवायम् पुरुष एतस्मा अन्ता य धावति यत्र न कञ्चन कामम् कामयते न कञ्चन स्वप्नम् पश्यति वा अस्येताहिता नाम नाड्यो यथा केदः सहस्रधा भिन्नस्तावताणिं मातिष्ठन्ति शुक्लस्य नीलस्य पिङ्गळस्य हरितस्य लोहितस्य पूर्णा अथ यत्रेणघन्तीव जनन्तीव हस्तीव विच्छाय यदि गर्तमिव पतति तदेव जाग्रद्भयं पश्यति तदत्रा विद्यया मन्यते अथ यत्र देव इव रादेवाहमेवे लग्ने मन्यते सोऽस्य परमो लोकः तद्वा अस्मि तदतिच्छन्दा अवहतपाप्मा भयज्ञरूपं तद्यथा प्रियया स्त्रियासं परिष्वक्तो न भाह्यं किञ्चन वेदनान्तरमेव मेपायं पुरुषः प्राज्ञेनान्मनासं परिष्वक्तो न भाह्यं किञ्चन वेदनान्तरं तद्वा अस्मि तदाप्तकाममात्मकाममकामग्ररूप ग्कान्तरम् अत्र पिता पिता भ्रवलि लोका अलोका देवा अदेवा वेदा अवेदा अत्रस्तेनस्तेनो भवति भ्रूणः भ्रूणः चाण्डालो चाण्डालः पौङ्कसो पौङ्कसश्रमणश्रमणस्तापसो तापसोऽनन्वागतम् पुण्येनानन्वागतम् पापेन तीर्णोहि तदा हृदयस्य भवति यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुदृष्टेर्विपदिलोपो विद्यते विनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तै यत्पश्ये यद्वैतन्न जिघ्रति जिघ्रन्वै तन्न जिघ्रति न हिघ्रातुर्घ्रातेर्मिपरिलोपो विद्यते विनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्ति यज्जिघ्रे यद्वैतन्न रसयते रसयन्द्वैतन्न रसयते न हि रसयितो रसयतेर्विपरिलोपो विद्यते विनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तिर्य यद्वै तन्न वदति वदन् वै तन्न वदति न हि भक्तिर्भक्तेर्विपरिलोपो विद्यते विनाशित्वान्न तद्वितीयमस्ति ततोऽन्यद्विभक्तै यद्वदे यद्वै तन्न शृणोति शृण्वै वै तन्न शृणोति न हि श्रोतुश्रुतेर्विपरिलोपो विद्यते विनाशित्वान्न तद्वितीयमस्ति ततोऽन्यद्विभक्तै यच्छृणुयात् यद्वैतन्न मनुते मन्वानो वेदन्न मनुतेन हिमन् दुर्मतेर्विपरिलोपो विद्यते विनाशित्वान्न तु तद्वितीयमस्ति यद्वैदन्नस्पृशति स्पृशन्वैदन्नस्पृशति न हि विद्यते विनाशित्वान्न तु यद्वै तन्न विजानाति विजानन्वैतन्न विजानाति न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते विनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तै यद्विजानीयात् यत्र वा अन्यदिव स्यात् तत्र्यान्यद्पश्ये धन्यान्यज्जिघ्रेदन्यान्यद्रसये धन्यान्यद्व्रदे धन्यान्यच्छृणया धन्यान्यन्मन्वितान्यान्यत्स्पृशे धन्यान्यद्विजानीयात् सलिल एको द्रष्टाद्वैतो भवत्येष ब्रह्मलोकः सम्राणिति हैनमनुषशासयाज्ञवल्कदेशास्य परमागतिरेशास्य परमासम्पादेशोऽस्य परमो लोक एषोऽस्य परमानन्द एतस्यैमानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति स यो मनुष्याणाग्नेध्यः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः स मनुष्याणा परमानन्दोऽ शतं मनुष्याणामानन्दास एकः पितॄणाञ्जितलोकानामानन्दोऽधये शतं पितॄणाञ्जितलोकानामानन्दास एको गन्धर्वलोक आनन्दोथये शतं देवानामानन्दास्य एक अजानदेवानामानन्द कामःतोथैष एव परमानन्द एष ब्रह्मलोकः सं्राणिति होवाच याज्ञवल्ल्यः भगवते सहस्रन्ददाम् यतवोध्वम् विमोक्षायैव ब्रूहीत्यत्र ह याज्ञवल्ल्यो विभयाञ्चकार मेधावी राजा सर्वेभ्यो मां उदरोत्सीदिति स वा एष एतस्मिन् स्वप्नान्ते दत्वा चरित्वा दृष्ट्वैव पुण्यम् च पापम् च पुनः प्रतिन्यायम् प्रतियोन्याद्रपति बुद्धान्तायैव तद्यथा सद्यम् याति यत्रे भवति स यमणि जो पतपथ वाणि मनं ग्रमोबरम पिप्पल वा बंधना प्रमुच्यत में पुरष्योभ्यं प्रमुच्य पुनः प्रति प्रदियोंन द्रवतीय तद्यथा राजानमायान्तमुग्राः प्रत्ययेन सूतग्रामण्यान्नैः पानैरावसथैः प्रतिकल्पन्ते यमायात्ययमागच्छतीत्येव ग्रेहैवमिलग्ने सर्वाणि भूतानि प्रतिकल्पन्त इदम् ब्रह्मायातीदमागच्छतीति त्यथाराधानम सग्राह प्रत्योत ग्राह्मण्यों सये मात्मात काले प्राण अभिश्रद्वो्वासी भवती स यत्रायमात्मा वल्यन्येत्यसं मोहमिमन्येत्यथैनमेते प्राणा अभिसमायन्ति स एतास्तेजो मात्रा समभ्या ददानो हृदयमेवान्भवक्रामति स यत्रैष चाक्षुषः पुरुषः पराम् पर्यावर्तते धारूप्रज्ञो भवति येकी भवति न पश्यति इत्याहुरेगी भवति न जिघतीहुरेगी भवति न रसयत इत्याहुरेगी भवति न वदति च्याहुरेगी भवति न शृणोति प्रहुरेगी भवति न मनुत इत्याहुरे गी भवति न स्पृशतित्याहुरेगी भवति तेनैष आत्मा निष्क्रामति चक्षुष्टो प्राणा, प्राणा अनोत्रामन्ति स भवति स विज्ञानमेवान्भवक्रामति तं विद्याकर्मणि समन्वादभेदे पूर्वप्रज्ञा तद्यथा तृणजलायुगा तृणस्यान्तम् गत्वा न्यमाक्रममाक्रम्यात्मानमुपसर्गे हरत्येवमे वायमात्मेदज्ञ शरीरम् निहत्या विद्याम् गमयित्वा न्यमाक्रममाक्रम्यात्मानमुपसर्ग हरति तद्यथा पेषस्कारीमेषसो मात्रामुपादायान्यन्नवतरं कल्याणतरज्ञे रूपं तनुत एव मे आत्मैदज्ञे शरीरं निहत्या विद्यां गमयित्वान्यन्नवतरम् कल्याणतरग्ररूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् सवा अयमात्मा ब्रह्मविज्ञानमयो मनोमयः प्राणमयश्चक्षुरु मयः श्रोत्रमयः पृथिवी मय आपो मयो वायुमय आकाशमयस्तेजो मयो तेजोमयः काममयो काममयः क्रोधमयो क्रोधमयो धर्म मयो धर्म मयः सर्वमयस्तद्यदेतदिदं मयो दोमय इति यथाकारी यथाचारी तथा भवति स्म साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेनाथो खल्वाहुः काममय एवायम् पुरुष इति स यथा कामो भवति तत्र तद्भवति यत्र तद्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते तदेष श्लोको भवति तदेव सक्तः सः कर्मणैति लिङ्गम् कर्मणस्तस्य यत्किञ्चे हकरोयम् तस्माल्लोकात् पुनरैत्यस्मै लोकाय कर्मण इति नु कामय मानोथा कामयमानो यो कामो निष्कामाप्तकामात्मकामो न तस्य प्राणा उत्क्रामन्यब्रह्मैव सम्ब्रह्माप्येति तदेष श्लोको भवति यदा सर्वे प्रमुच्यन्ते कामाये शिरीशिलाः अथ मृतो भवत्यत्र ब्रह्म समश्मृत इति तद्यथा हि निर्वयनीवल्मीके मृता प्रत्यस्ताशयितैव मे वेदग्ने शरीरग्नेशेतेथायमशरीरो मृतः प्राणो ब्रह्मैव ते जेवसोऽहम् भगवते सहस्रम् ददामीति होवाच जनको वैदेहा तदेते श्लोका भवन्ति अनः पन्था विततः पुराणो मा गस्पृष्टो निमित्तो मयैव तेन धीरा अपि यन्ति ब्रह्मविदः स्वर्गम् लोकमितवोद्धम् विमुक्ताः तस्मिञ्चुक्लमुत नीलमाहुः प्लिङ्गलग्ने हरितम् लोहितम् येष पन्था ब्रह्मणाः निवित्तस्तेनैति ब्रह्मवित् पुण्यकृत्यैजसश्च प्रविशन्ति ये, ये विद्यामुपासते ततो भूयैव ते तमोयगविद्यायाग्ररताः अनन्दानाम ते लोका अन्धेन तमसावृताः ताग्रस्ते प्रे भिगच्छन्त्यविद्वागसो बुधो जना आत्मानम् चेद्विजानीयादयमस्मीति कूरुषः किमिच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत् यस्या न वित्तः प्रतिबुद्ध आत्मास्मिन् सन्देह्ये गहने प्रविष्टः स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स पुलोक एव इहैव सन्तोष विद्मस्तद्वयम् न चेदवे निर्महती विनष्टिः ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापि यन्ति यदैतमनुपश्यत्यात्मानन्देव मञ्जसा ईशानम् भूतभव्यस्य न ततो विजुगुप्सते यस्मादर्वाक् संवत्सरोः परिवर्तते तद्देवाज्योतिषा ज्योतिरायुर्होपासते मृतम् यस्मिन्पञ्च पञ्च जना आकाशश्च प्रतिष्ठितः तमेव मन्यः विद्वान् ब्रह्मा मृतो मृतम् णस्य प्राणमुतचक्षुषश्चक्षुरुतश्रोत्रस्य श्रोत्रम् मनसो ये मनो मिलुः ते निचित्य ब्रह्मपुराणमग् मनसैवानुद्रष्टव्यम् नेह नानास्ति किञ्चन वृत्यो समृत्युमाप्नोति यैह नानेव पश्यति ये कथैवानुद्रष्टव्यमेतदप्रमयन्ध्रुवम् विरज पर आकाशाद आ महा तमेधे विज्ञाप्रज्ञाकुद्राह्मण नानध्याया बहूं शब्दाचो विज्ञापन गृहीत स वा एष महान् जात्मा योऽयं विज्ञानमयः प्राणेषु सर्वस्य वशी सर्वस्येषानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्न एवा साधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष लोकानामसं भेदायतमेतं वेदानवचनेन ब्राह्मणा विदिशन्ति यज्ञेन दानेन तपसा नाशकेनैतमेव विदित्वामु यद्भवत्येतमेव प्रव्राजिना लोकमिच्छन्तः प्रव्रजन्त्येतद्भस्ममैतत्पूर्वे विद्वासः प्रदाना किं प्रजया करिष्यामो येषां नो यमात्मायं ये इति ते हस्मपुत्रैषणायाश्च लो वित्तैषणायाश्च लोकैषणायाश्च व्युत्थाया स भिक्षाचर्यञ्चलन्ति या येव पुत्रैषणा सा भवतः स ये शेति नेत्यात्मा गृह्यो न हि गृह्यते शीर्यो न हि शीर्यते सङ्गो न हि सज्जते शिरोनम् व्यथते निष्यत्येतमुहैवैतेन तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उभैवै शयेते तरति नैनम् कृता तदे तदेतदृचाभ्युक्तम् एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा तस्यैव स्यात् पदवित्त्वं विदित्वा न कर्मणा पापकेनेति तस्मादेवं विच्छान्तो दान्तपुपरतस्तिक्षस्य समाहितो भूत्वात्मन्ये वा मानं पश्यति सर्वमात्मानं पश्यति नैनं पाप् सर्वं पाप् मानन्तरति नैनं पापोऽ विरजोऽपि चिकित्सो ब्राह्मणो भवत्येष ब्रह्मलोकः सम्राणिवाच भगवते विदेहान् ददामि माम् चापि सः दास्यायेति समायेष वसुदानो विन्दते वसु य वेदा स वा एष आत्मा जरो मरो मृतो भयो ब्रह्मा भयं वै ब्रह्मा भयग्रेहि वै ब्रह्म भवति एवं वेदा अथ यावल्ये बभूव दुर्मयी चातयनी चोर्ह मैत्रेय ब्रह्मवादिनी बभूव स्त्री प्रज काय मैत्रेयीति होवाच याज्ञवल्क्यः प्रव्रजिष्यन्वा अरेहमस्मात् स्थानादस्मिहन्त तेन या का क्यायञ्जान्तम् करवाणीति सा होवाच मैत्रेयीयन्मयियम् भगवः सर्वा पृथिवीवित्तेन पूर्णा हो नेति नेति होवाच ैवोपकरणवताम् जीवितम् जीवितं ते जीवितज्ञस्यादमृतत्वस्य तु नाशास्ति वित्तेनेति सा उवाच मैत्रेयी येनाहन्नामृता स्यान् यदेव भगवान् वेद तदेव मे ब्रूहीति सहोवाच याज्ञवल्क्यः प्रिया वै सती प्रियमवृतद्धन्त तर्हि भवत्ते तद्व्याख्यास्यामि ते व्याचक्षाणस्य तु सहोवाच अरे पत्युः कामाय पतिः कामाय पतिः भवति न अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति न अरे पुत्राणां कामाय पुत्रा प्रिया भवन्त्यात्मनस्तु कामाय पुत्रा प्रिया भवन्ति न अरे वित्तस्य कामाय वित्त भवत्या मनस्तु कामाय प्रियं भवति पशूनां कामाय पशवः प्रिया भवन्त्यात् मनस्तु कामाय पशवः प्रिया कामाय ब्रह्म प्रियं भवत्या अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात् कामाय क्ष भवति न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात् मनस्तु कामाय लोकाः प्रिया भवन्ति न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात् मनस्तु कामाय देवाः प्रिया भवन्ति अरे वेदानां कामाय प्रिया भवन्त्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति न वा भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति न वा सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टं य श्रोतं व्योमन्तं यो मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते इलग्ने सर्वं विनीतम् ब्रह्म तं परादाद्योन्यत्रात्मनो ब्रह्मवेदक्षत्रं तं परादाद्योन्यत्रात्मनक्षत्रं वेदलोकास्तं परादुर्योन्यत्रात्मनो लोकान् वेददेवास्तं परा दुर्योन्यत्रात्मनो देवान् ं परादुर्योन्यत्रात्मनो वेदान् वेदभूतानि तं परादुर्योन्यत्रात्मन भूतानि वेद सर्वं तं परादाद्योन्यत्रात्मनः सर्वं वेदे लम्बं वेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि भूतानि लग्ने सर्वै यदयमात्मा स यथा दुन्दुभेर्हण्यमानस्य न बाह्याञ्छब्दानुयाद्ग्रहणाय दुन्दुभेस्त्व ग्रहणेन दुन्दुभ्याघातस्य वा था था था शब्दो गृहीतः स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्चक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन वा शब्दो गृहीतः स यथा वीणायैवाद्यमानायै न वाह्या शब्दाञ्चक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणा वा शब्दो गृहीतः स यथा द्रीधाग्नेरव्याहितस्य पृथग्धूमा विनिश्चदन्त्येवं वारेस्य महतो भूतस्य निःश्वसितमेतद्य ऋग्वेदो यजुर्वेद सामवेदोऽधर्माङ्गिरस इतिहासः पुराणं विद्या उपनिषद श्लोकासूत्राण्यनं व्याख्यानां व्याख्यानानिष्टद्ये हुतमाशितं यञ्च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि निःश्वसितानि स यथा सर्वासामपा समुद्र एकाय न मे वग्ने सर्वेषाग्निस्पर्शानाम् त्वगैकाय न मे वग्ने सर्वेषाम् गन्धानाम् नासिकैकाय न मे वग् सर्वे जिह्वैकायनमेवज्ञे सर्वेषा रूपाणां चक्षुरेकाय नमेवज्ञे सर्वेषाज्ञे शब्दानाज्ञ श्रोत्रमेकायनमेवज्ञे सर्वेषाज्ञे सङ्कल्पानां मन एकायनमेवज्ञे सर्वासां विद्यानाग्ने हृदयमेकायनमेवज्ञे सर्वेषां कर्मणा हस्तावेकाय नमेव अग्रे सर्वेषामानन्दानामुपस्थयेकायनमेव ग्रे सर्वेषाम् विसर्गाणाम् पायनेकाय नमेव ग्रे सर्वेषामध्वनाम् पादावेकायनमेव ग्रे सर्वेषाम् वे वेदानाम् भागेकायनम् स यथा सैन्धमघमानन्त यः कृत्स्नो रसघन एवैवम् वा हरे यमात्मानन्तरो बाह्यः कृत्स्नः प्रज्ञानघन होवाच याज्ञवल्ल्यः साहोवाचमै हरे यत्रैव मा भगवान् मोहान्तमापि विबन्न अहमिमं वि जानामि सहोवाचन अरेहं मोहं ब्रवीम्य विनाशी वा अरे यमात्मानुच्छित्रधर्मा यत्र यद्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर इतर गे रसयते तदितर इतरमभिवदति तदितर इतरगेशृणाति तदितर इतरं मनुषे तदितर इतरगस्पृशति तदितर इतरं विधानाति यत्र सर्वमात्मैवाभूत् तत्केन गम् पश्येत् तत्केन गञ्जिघ्रेत्तत्केन केन सयेत् तत्केन कमभिवदेत् तत्केन गङ्गे शृणयात्तत्केन कं मन्वित तत्केन गङ्गस्पृशेत् तत्केन कं सर्वं विजानाति तङ्केन विजानीयात् स एष नेति नेत्यात्मा गृह्यो हि गृह्यते शीर्यो न हि शीर्यते सङ्गो न हि सज्जते शितोनं यथते रिष्यति विज्ञातारमरेखेन विजानीयादित्युक्ता न शासनासि मैत्रेय्ये तावनरे खल्वमृतङ्गविधिहोङ्गायाज्ञवल्क्य विजहारा अथमग्नेशः पौतिमाश्यो गोपवनात् गौपवनः पौतिमा स्यात् पौतिमाश्यो गोपवनात् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात् कौण्डिन्यण्डिल्यात् छाण्डिल्यः कौशिकाश्च गौतमाच्च गौतमः आग्निवेश्यादाग्निवेश्यो गाद्यात् गाद्योगात् माद् गौतमः सैदवात् सैदवः पाराशर्यायणात् पाराशर्यायणो भाग्यायणात् गाग्यायण न कौशिकायने कौशिकाय धृतकौशिका धृतकौशिक पाराशरियाय पाराशरियाय पाराशरिया पाराशरियो जातु कन्या कन्या आसुरायणचास्काचाण स्त्रीवणे स्वणि रौपजने रौपजन रासुरे रासुरे भारद्वाज आयोटर्मा गौतमा गौतम गौतमा गौतम भास्लिया छाणी कैशौरियाप्याप्य कुमर हिता कुमार हिराल भार भीतौ लिङ्ग्याद्विदर्भेदौ लिन्यो वत्सन पादो बाभ्यवाद् वत्सनपाद्भाभ्रवः पथः सौभरात् पन्थाभरो यास्यादाङ्गिरसादयास्याङ्गिरसाभूते स्वाष्टादाभूतिस्त्वाष्टो विश्वरूपात्त्वाष्टाद्विश्वरूपस्त्वाष्टोऽभ्यामश्विनौ दधि च अथर्वणात् तध्वथर्वण धर्मणो दैवादथर्वा दैव मृत्यप्राद् भग्ने सनान् मृत्युः प्राग् भग्ने सनः प्रध्वग्ने सनात् प्रध्वग्ने सनगे कर्षे रेकर्षिर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्ट्यः सनादस्सनादः सनातनात् सनातनः सनगात्सनगः परमेष्ठिनः परमेष्ठि ब्रह्मण ब्रह्म नमस्वयम्बुर्ब्रह्मणे नमः वो इति चतुर्थोऽध्यायः